अथ द्वितीयोऽध्यायः सञ्जय उवाच तम् तथा कृपयाविष्टम् अश्रुपूर्णापुलेक्षणम् विषीदतम् इदम् वाक्यम् उवाच मधुसूदनः श्रीभगवानुवाच उत स्वा कष्मलम् इदं विषमे समुपस्थितम् अनार्यजुष्टम् अस्पर्ग्यम् अकीर्तिकरम् अर्जुना यस्तेघम् शाधिमा त्वां प्रपन्धम् धिपत्यम् सञ्जय उवाच एवमुक्त्वा ऋषी केशम् गुडाकेशः परन्तपा न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीम् बभूव सन्निव भारत सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ोच्यानन्मशोचस्त्वम् प्रज्ञावागांश्च भाषसे गतासून् अगतासूंश्च नानुशोचन्ति पण्डिता भविष्यामः सर्वे वयमत शर्षभा समदुःखसुखम् धीरम् सोऽमृतत्वाय कल्पते नासतो इदम् तदम् विनाशम् अव्ययस्यास्य न कश्चित् कर्तुमर्हति शरीरिणः अनाशिनो प्रमेयस्य तस्माद्युध्यस्व भारत ये ते हतम् उभौ तौ न विजानीतो नायम् हन्ति जो नित्यः शाश्वतोऽयम् पुराणो न कूयते णि नैनं दधति पावकः न क्लेदय All right. ध्रुवम् जन्म मृतस्य च तस्मात् अपरिघायेते न त्वम् शोचितुम् अर्हसि व्यक्त व्यक्तमे भारत अव्य निधना त्र का परिदेवना श्चर्यवत् पश्यति कश्चिदेन आश्चर्यवद्वदति तथैव चान्यः आश्चर्यवच्चैनम् अन्यः शृणोति श्रुत्वाप्येनम् कश्चित् ष्यन्ति देव्यया सम्भावितस्य च अतीः मरणा े त्वाम् महारथाः येषाम् च त्वम् बहुमतो भूत्वा यास्यसि लाघ छा क े बुद्धिः योगे तु इमा बुद्ध्यायुक्तो यया ya yeah. Oh. apa Thank you. हाना uh, nah प्रतिपङ्गा ते यदा स्थास्यति निश्चल समाधौ अचला अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशवा स्थितधीः किम् प्रभाषेत किमासीत व्रजेत भगवानुवाच प्रजगाति यदा कामा सर्वा आर्थमनोगता आत्मन्येवात्मना तुष्टदा स्थितप्रज्ञः तदोच्यते मुनिरुच्यते यः सर्वत्रा नभिस्नेगः तत्तत् प्राप्य शुभाशुभम् नाभिनम् न द्वेष्टि तस्य प्रज्ञा Thank you. ूपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते सम्भोगात् स्मृतिविभ्रमग स्मृतिभ्रंशात् बुद्धिदाशो बुद्धिनाशात् प्रणश्यति ए, ए, ए, ए, ए आत्मावष्टे विधेयात्मा प्रसादं अधिगच्छति चेतसोऽभ्याशु बुद्धिः पर्यतिष्ठते नास्ति बुद्धिः अयुक्तस्य न च इन्द्रियाणां विचरत जाग्रतीभूतानि सा अचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् तद्वत् कामाः यम् प्रविशन्ति सर्वे सशान्तिम् आ निर्ममो निरहङ्कारः सशान्तिम् अधिगच्छति गीतास् उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः